द्वाविंशत्यधिक शत तमोऽध्यायः गर्भे गान्धार्या जनमे जय आह्वयामास वै कुन्ती गर्भार्थे साबलिं सा बलिम् त्वरिता देवि धर्मायोपजहारः जजापविधिवजप्यम् दत्तम् दुर्वाससा पुरा देवो धर्मो मन्त्रबलात्ततः विमाने सूर्य कुन्ती यत्र जपस्थिता विहस्यताम् ततो ब्रूयाः कुन्ति किम् सातम विहस्यमना पुत्रेह्यब्रवीदीद संयुक्ता सा हिधर्मेण योगमूर्तिधरेण लेत्र बरारोह सर्वणभृता हित्द्रे चंद्र सयुक् मुहूर्तेजिष्ट में दिवामध्यगते सूर्ये थौ पूर्णे पूजि समृद्ध यशस कुशाव प्रवरं सुतम जातमात्रे सुस्गुवाचा एष धर्मभृताम् श्रेष्ठो भविष्यति नरोत्तमः विक्रान्तः सत्यवाक्त्वेव राजा पृथ्व्याम् भविष्यति युधिष्ठिर इति ख्यातः पाण्डोः प्रथमः भविता प्रथितो राजा त्रिषु लोकेषु यशसा तेजसा चैव वृत्तेन समन्वितः धार्मिकम् तम् सुतम् लब्ध्वा पाण्डुस्ताम् पुनरब्रवीत् प्राहुक्षत्रं बलज्येष्ठम् बलज्येष्ठम् सुतं वृणो अश्वमेध कृत श्रेष्ठो ज्योतिः श्रेष्ठो दिवाकरः ब्राह्मणो द्विपदाम् श्रेष्ठो बलश्रेष्ठस्तु मारुतः मारुतम् मरुताम् श्रेष्ठम् सर्वप्राणिभ्रीडितम् आवाहयत्वम् नियमात् पुत्रार्थम् वरवर्णिनि सनोऽयम् दास्यति सुतम् ततस्तथोक्ता भर्त्रा वायुमेवाजुहावसा ततस्तामागतो वायुर्मृगारूढो महाबलः किम् ते कुन्ति ददाम् यद्य ब्रूह्यत्ते हृदि स्थितम् देहि सुरोत्तम बलवन्तम् महाकायं सर्वदर्प प्रभञ्जनम् तस्माज्जज्ञे महाबाहुर्भीमो भीमो पराक्रमः तमप्यतिबलम् जातम् वागुवाचा शरीरिणी सर्वेषाम् बलिनाम् श्रेष्ठो जातोऽयमिति भारत इदमत्यद्भुतम् चासीत् जातमात्रे वृकोदरे यदात्त्ति मतु शिलात्रचूर्णय कुी तो सह पुत्रेण याचि स्ना सुतमादा दश में हादवी देवताजगाश्रमात् शैलां याशेन ग्यादा भरत सत्तम निश्चक्रम महां व्याघ्रो जिघांस गिरीगरा तमापत शादूल विक्रुष्याथ कुरूत्म निर्बिभे दशर पांडुस्त्रिस्त्रिदश विक्रम नादेन महता ताम् तु पूरयन्तम् गिरेर्गुहाम् कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल नान्व बुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम् ततः स वज्र सङ्घातः कुमारोऽन्यपतत् गिरौ शतधा शिलागात्रैर्विचूर्णिता ताम् शिलाम् दृष्ट्वा पाण्डुर्विस्मयमागतः मघे चन्द्रमसायुप्पे सिंहे मैत्रे मुहूर्ते साकुन्ती सुषुवे भीममच्युतम् यस्मिन्नहनि भीमस्तु यज्ञे भरत सत्तम दुर्योधनोऽपि प्रजज्ञे वसुधाधिप जाते वृकोदरे पाण्डुरिदम् भूयोऽन्वचिन्तयत् कथम् नु मे वरः पुत्रो भवेदिति दैवे पुरुषकारे च लोकोऽयम् सम्प्रतिष्ठितः तत्र दैवम् तु विधिना कालयुक्ते न इन्द्रो हि राजा देवानाम् प्रधान इति न श्रुतम् अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः तम् तोषयित्वा तपसा पुत्रम् लप्स्ये महाबलम् यम् दास्यति समे पुत्रम् स वरीयान् भविष्यति अमानुषान्मानुषांश्च सङ्ग्रामेण हनिष्यति कर्मणा मनसा वाच तस्मात्तप्स्ये महत्तपः ततः पाण्डुर्महाराजो मन्त्रयित्वा महर्षिभिः दिदेशकुन्त्या कौरव्यो व्रतम् साम् शुभम् आत्मना च महाबाहुरेकपादस्थितोऽभवत् उग्रम् सतपास्थाय परमेण समाधिना आरिराधैषुर्देवम् त्रिदशानाम् तमीश्वरम् सूर्येण सह धर्मात्मा पर्यतप्यत भारत तम् तु कालेन महता सुतम् ते ग्रियम् प्रदास्यामि सर्वामित्र विनाशनम् इत्युक्तः कौरवो राजा वासवे न महात्मना धर्मात्मा देवराज वच स्मरन् उदर्कस्तव कल्याणि तुष्टो देव गणेश्वरः पुत्रम् यथा सङ्कल्पितम् त्वया अतिमानुष कर्माणम् यशस्विनमरिन्दमम् नीतिमन्तम् महात्मानमादित्य समतेजसम् दुराधर्षम् पुत्रम् जनय सुश्रोणि धाम क्षत्रिय तेजसाम् लब्धः प्रसादो देवेन्द्रात् तमाः वयसु च स्मिते वैशम्पायनोवाच एवमुक्ता तत शक्रमाजुहा वयशस्विनी अथा जगाम देवेन्द्रो जनयामास चार्जुनम् उत्तराभ्याम् तु पूर्वाभ्याम् फल्गुणीभ्याम् ततो जातस्तु फाल्गुणे मासि तेनासौ फाल्गुणः स्मृतः जातमात्रे कुमारे वागुवाचा शरीरिणी महागम्भीर निर्घोषा तदा शृण्वताम् सर्वभूतानाम् तेषाञ्चाश्रमवासिनाम् कुन्तीमाभाष्य विस्पष्टम् उवाचेदम् शुचिस्मिताम् कार्तवीर्यसमः कुन्ति शिवतुल्यपराक्रमः एष चक्र इवाजय्यो यशस्ते प्रथयिष्यति आदित्या विष्णुना प्रीतिर्यथाभूदभिवर्धिता तथा विष्णुसमः प्रीतिम् वर्धयिष्यति ते अर्जुनः एष मद्रान्वशे कृत्वा वहिष्यति गोत्तर दिशं वीरो विजि युधि पार्थिवा धनरत्नौघ मित आनय्यति पांडव एक भुज वीण खांडवे हव्यवाहन मेधसा सर्वूता वैपराणीच महीी पालाश जि महाबल भ्रातृ सहित वीर स्त्री मेधाह्य